गणेशपुराणं क्रीडाखण्डम् अध्यायम् हण्ड्रेड् अण्ड् सेवेन् क उवाच ततश्चतुर्दशे वर्षे गौतमाद्यासुरर्षयः आययोर्गिरिजागेहं नानागणयुधं शिवं नमस्कृत्यजतानम्बा नानासनगदान्पुरः पूजयित्वा विधानेन प्रोवाच हृद्गतं वचः विघ्नभीत्या परित्यक्तं तृसन्ध्या क्षेत्रमुत्तमम् अस्य मे विघ्ना अत्रापि बहवो भवन् दिशन्तु विघ्नरहितं कर्म मुनय ऊचुः इन्द्रयागे कृते देवी सर्वविघ्नं हरिष्यति क तदेव कारयामास मण्डपम् बहुविस्तरं सम्भारान् कारयामास शक्रसन्तोषकारकान् आज्ञां गृहीत्वा शम्भोः सा पार्वतीहर्षनिर्भरा कारयामासविधिवदिन्द्रयागं महर्षिभिः ध्यानमावाहनं चक्रुरिन्द्रस्य इदे महर्षयः पुपूजुर्गिरिजादे स्यात्साङ्गमिन्द्रं गणानभि कुण्ठे वह्निं प्रतिष्ठाप्य मन्त्रैरेव जपानां तद्दशांशेन जुहुवुस्तिलपायसं प्रणवाद्यैर्नमोन्दैश्च स्वाहान्दाैर्मसञ्चयैः शान्ति पाठान् पठन्ति स्म चतुर्वेद भवान् द्विजाः एतस्मिन्नन्तरे बालक्रीडित्वा बालकैः सह यज्ञवाडमुखो यादे दैत्यौ दु कलविङ्गलौ तावत्सम्मुखदां यादौ माखिषं रूपमास्थितौ महारवौ महाशृङ्गौ भीषयन्तौ जगत्त्रयं षडाभिन्नखनौ पुच्छाद्धारयन्तौ दा। गिरीनथा नासानिरोधपवनाच्चूर्णयन्तौ द्रुमानपि उमासुदं हन्तुकामौ यादौ शीघ्रं तदन्तिकं प्रायुध्येदां तदा द्वौ तौ मत्ताविव महागजौ तयोः शब्देन गगनं गर्जति स्म यदाखनः जयं भङ्गं क्रमेणोऽभौ प्रापदू रुधिरोक्षितौ विद्रुदामुनिबालास्ते ताभ्यां भीतावृकादिव दूरा ददर्शगिरिजा सुतस्तौ दैत्यपुङ्गवौ कथमेदौ महादुष्टौ हनिष्यामीति चिन्तयन् पश्यत् सुतेषु बालेषु चिक्षेप गगने च तौ पुच्छे गृहीत्वा दिबलौ पुनः पुनः मुहूर्तात् पतितौ तान् विदार्य शतधा देहखण्डानि तयोराद्वन्वृकादयः तदस्ते मुनिबालास्तं व्ययुर्भक्त्या प्रदुष्टुवुः यस्य तत्त्वं न जानन्ति ब्रह्माद्यामुनयोऽपि च सर्वान्तर्यामिणस्ते दुःखं विद्यामहे वयं बालात्यभृदि दैत्यास्ते नाशिता कोडिशस्त्वया एतौ महिषरूपेण हन्तुं त्वां समुपागतौ मूषकाविवसन्त्यक्तौ पुच्छे धृत्वा स्वलीलया ययोश्वासेन चलिताः पर्वताश्च द्रुमाधराः क उवाच मयूरेशस्तदप्रायाद्यज्ञवाडं रमन् रमन् ददस्येन्द्रमखं ध्वं सयामास तत्क्षणाद दूरे क्षिप्वा शक्रमूर्ति प्रोजे सर्वान्नीशरान् वृद्धो मुनिुदसर्वक क्रीय देमला किंत नदात वास्वेनाखिलाथिना अजा प्राथनया कि कामधे नुल लभेद स आद शेषसामग्रीकृत्वा शान्त उदाशनं मुनयो विस्मितहृदो वीक्ष्य चापल्यमस्य तद उमानिविष्टहृदया नाशकत्थं गुणेश्वरम् उपालब्धुं शिक्षितुं वा वक्तुं क्रोधेन किञ्चन उमायै सर्वमाख्याय जग्मुस्वं स्वं श्रुत्वेन्द्रे क्षुब्धहृदये यत् स्यात्तच्च भवत्विति स्वपमाने परिज्ञादे शक्रश्चुक्रोभवैभृश्यं क्रोधसंरक्तनयनो दहन्निव स्वापमाने परिज्ञादे शक्रश्चुक्रोध वैभृश्यं क्रोधसंरक्तनयनो दहन्निव आकार्यदेवनिचयानुवाच वाक्यमुत्तमम् इन्द्र उवाच मम यागो मुनिगणैरारब्धपरमादराद स विध्वंस्तो गुणेशेन तस्य द्रक्ष्येद्यपौरुषम् रुष्ठे मयि भवेन्नष्टं त्रैलोक्यं सचराचरं देवाऊचुः तवाज्ञा चेन्मयूरेशं बद्ध्वा निमहक्षणेनः शक्र मयूरेशपुरे वाह्ने मास्तु क्वचित् सर्वेषां जाठरोऽपि लीनो भव ममाज्ञया क उवाच यदि वचस्तस्य शक्रस्य ऋषितान्मनः वाग्निरन्तर्हितस्त्वत्र पुरेऽपि जठरेऽपि च नापश्यन्मुनयो वह्निं मम दुर्होमहेतवे नायातीति प्रक्वं जक्षुरादराद न च तत्पच्यते व्यथा भवति दुर्धरा ततस्ते मुनयो जग्मुमयूरेशं कृपाकरं नमस्कृत्या ब्रुवन् सर्वे शक्राहूदो गदो जाठरोऽपि गदो वाक्निरिन्द्रयागे हदेत्वया इत्याकर्ण्य इत्याकर्ण्यवचस्तेषां प्रत्येकं जठरे नलः सोभवक्षुधयाविष्टा सर्वे जातास्तु तत्क्षणाद महानसेषु कुण्डेषु तथैव भवद ततो शक्रक्रुद्धो महाबलः प्रदभूता पुरी सर्वा पञ्चप्राणे गदे भवद पञ्चप्राणमयो देवस्ततस्तान् समजीवयद तद इन्द्रो ब्रवीत्सूर्यं तापय इनं तद सूर्योतपस्तर्वं द्वादशादित्यरूपवान् वापी कूपतडागेषु नद्यां जलमशोषयद जज्ज्वालपृथिवी सर्वा पुरग्रामवनाकरा तदशीघ्रं मयूरेशोमेको भूत्वा ववर्षः शमयामासतम् वह्निम् मृतांश्च समजीवयद ततो हर्षयुता लोका साधु साध्वीत्यपूजयन् क उवाच प्रतिकूलम् कृतं ज्ञात्वा शक्रो ययौ देवम् बद्धाञ्जलिपुटो भूत्वा स्तोदुं सर्वेश्वरं विभुं शक्र उवाच न वेदानर्षयो जग्मु ब्रह्माद्यास्ते गतिं विभो सर्वन्तर्यामिणः सर्वरूपस्य ब्रह्मरूपिणः ब्रह्मादीनां विश्वसृजां कारणानां च कारणम् अपराधान् क्षमस्वाद्यत्वामहं शरणं गतः मस्तकम् पादयोऽर्न्यस्य प्रार्थयामासदरं क उवाच निर्विकल्पम् अनन्तस्य ज्ञात्वा प्रागुणेश्वरः उत्तिष्ठोत्तिष्ठभद्रं देपदे तिष्ठ सुखं स्वके ततः सम्पूज्य देवं नमस्कृत्य शचीपतिः प्रदक्षिणीकृत्यययौ हष्ट श्री हस् सन्नमरव खंडे क्रीड़ाखंडे सप्ताकशतमोध्याय ओम